अथ तृतीयः सर्गः सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवत् प्रतिजग्राहकाकुत्स्थो हनुमन्तमथा ब्रवीत् तपसा सेतुबन्धेन सागरोच्छोषणेन च सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीष्वमे ज्ञातुमिच्छामि तत्सर्वम् दर्शनादिबवानरा बलस्य परिमाणम् च द्वारदुर्गक्रियामपि गुप्तिकर्म च लङ्काया रक्षसाम् सदनानि च यथा सुखम् यथावच्चलङ्कायामसि दृष्टवान् सर्वमाचक्ष्मतत्त्वेन सर्वथा कुशलो श्रुत्वा रामस्य वचनम् हनुमान् मारुतात्मजः वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनरथा ब्रवीत् श्रूयताम् सर्वमाख्यास्ये दुर्गकर्मविधानतः गुप्ता पुरी यथा लङ्का च यथा बलैः राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा पराम् समृद्धिम् लङ्कायाः सागरस्य च भीमताम् विभागम् च अवलोघस्य निर्देशम् वाहनस्य च एवमुक्त्वा कपिश्रेष्ठः कथयामासतत्वतः हृष्टप्रमुदितालङ्का मत्तद्विपसमाकुला महतीरथसम्पूर्णा रक्षो गणनिषेविता दृढबद्धकपाटानि महापरिभवन्ति च चत्वारि विपुलान्यस्य द्वाराणि सुमहान्ति च तत्रेषु फलयन्त्राणि बलवन्ति महान्ति च आगतम् प्रति सैन्यम् तैस्तत्र प्रतिनिवार्यते द्वारेषु संस्कृता भीमाः कालाय समयाश्रिताः शतशो गणैः सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रदर्शनः मणिविद्रुमवैदूर्यमुक्ता सर्वतश्च महाभीमा शीततो या महाशुभाः अगाधाग्राहवत्यश्च परिखामीरसेविताः द्वारेषु तासाम् चत्वारः सङ्क्रमाः परमायताः यन्त्रैरुपेता बहुभिर्महद्भिर्ग्रहपङ्क्तिभिः त्रायन्ते सङ्क्रमास्तत्र परसैन्यागते सति यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः एकस्त्वकम् प्यो बलवान् सङ्क्रमस्व महादृढः काञ्चनैर्बहुभिस्तम्भैर्वेदिकाभिश्च शोभितः स्वयम् प्रकृतिमापन्नो युयुत्सूराम रावणः उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने लङ्का पुनर्निरालम्बा देवदुर्गाभयावहा नादेयम् पार्वतम् वान्यम् कृत्रिमम् चतुर्विधम् स्थिता पारे समुद्रस्य दूरपारस्य राघवा नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः शैलाग्रे रचिता दुर्गा सापूर्देव पुरोपमा बाजिवारणसम्पूर्णालङ्का परमदुर्जया परिखाश्च शतघ्नश्च यन्त्राणि विविधानि च शोभयम् त्रिपुरीम् लङ्काम् रावणस्य दुरात्मनः अयुतम् रक्षसा मत्र पूर्वद्वारम् समाश्रितम् शूलहस्तादुराधर्शाः सर्वे खड्गाग्रयोधिनः नियुतम् रक्षसामत्र दक्षिणद्वारमाश्रितम् चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः प्रयुतम् रक्षसामत्र पश्चिमद्वारमाश्रितम् कर्म ख्गधराः सर्वे तथा सर्वास्त्र कोविदाः न्यर्बुदम् रक्षसामत्र उत्तर द्वारमाश्रितम् रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः शतशोथ सहस्राणि मध्यमम् स्कन्धमाश्रिताः यातु धानादुराधर्शाः साग्रकोटिश्च रक्षसा दग्धा च नगरीलङ्का प्राकाराश्चावसादिताः बलैकदेशः क्षपितो राक्षसानाम् महात्मना येन केन तु मार्गेण तरामवरुणालयम् हतेति नगरी लङ्का वानरैरुपधार्यता अङ्गदोर्द्विविदो मैन्दोजाम्बवान्पनसो नलः नील सेनापतिश्चैव बलशेषेण किम् प्लवमाना हि गत्वा ताम् रावणस्य महापुरी सपर्वतवनाम् भित्त्वा सखाताम् च सतोरणाम् स प्राकाराम् स भवनामानयिष्यन्ति राघव एवमाज्ञापय क्षिप्रम् बलानाम् सर्वसङ्ग्रहम् मुहूर्तेन तु युक्तेन इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः